नारदपुराणं पूर्वार्थम् अध्यायम् सिक्स्टि एय्ट् श्रीसनत्कुमार उवाच अथ वक्ष्ये गणेशस्य मन्त्रान् सर्वेष्टदायकान् यान् समाराध्यविप्रेन्द्र साधको भुक्तिमुक्त्रिमान् अव्ययो विष्णुवनिता शम्भुस्त्रीमीनकेतनः स्मृतिर्मांस्येदुमन्वाढ्या स पुनश्चन्द्रशेखरा मेधोगणपतिस्थोयं भुजङ्गो वरदेति च सर्वान्ते जनमुञ्चार्य ततो मे वशमानय वह्निप्रियान्दो मन्द्रो यष्टाविंशति वर्णवान् गणकोऽस्य मुनिश्चन्दो गायत्री वियुदाधिका गणेशो देवता बीजं षष्टशक्तिस्तद्धाधिका श्रीमन्महागणपतिप्रीदये विनियोगदः ऋषिं शिरसि वक्रेदु छन्दश्च हृदि देवताम् गुह्ये बीजं पदोशक्तिं न्यस्य साधकसप्तमः षड् दीर्घाढ्येन बीजेन यञ्जबीजादिना पुनः षडङ्गानि न्यस्ये दस्य जातियुक्तानि मन्त्रविद शैवी षडङ्गमुद्राय न्यस्तव्याहि षडङ्गके गामाद्यं चैव भूर्लोकं नाभ्यन्तं पादयोर्न्यसेत गीमाद्यं च भुवर्लोकं कण्ठान्तं नाभिदो न्यसेत स्वर्लोकं चैव भूमाद्यं कण्ठदिमस्तकाविधि व्यापकमूलमन्त्रेणन्यासोऽयं भुवनाभिधः मूलमन्त्रम् समुञ्चाय्य मादृका वर्णमीजयेद तदं तेऽपि जमूलं स्यान्नमों तं मादृका स्थले क्षान्तं विन्यस्य मूलेन व्यापकं रजयेत्सुधीः वर्णन्या स्वयमाख्यादपदन्यासस्तथोच्यते पञ्चत्रिबाणवह्नेन्दु चन्द्राक्षिणि गमैक्रमाद विभक्कृतैर्मूलगायत्र्या हृदन्तैराष्टभिपदैः बालदेशे मुखे कंठे हृदि नाभ्यो रुजानुष पादयोश्चैव विन्यस्य मूलने व्यापकं चरेद वदेत्तत्पुरुषा यान्ते विद्महेदिपदं तदः वक्रतुंडाय शब्दां ते धीमहीधि समीरयेद् तन्नो दं तिप्रचोह्वर्णादयादिति वदेत् पुनः यशोक्दामूलगायत्रिसर्वसिद्धिप्रदायिनी एवं न्यास्य विधिं कृत्वा देवं हृदम्बुजे उद्यन्मार्तण्डसदृशम् लोगस्थित्यन्धकारणम् सशक्तिगम्भूषिताङ्गम् दन्तचक्राद्युधायुधम् एवम् ध्यात्वा चतुश्चत्वारिंशत् साहस्रसंयुधम् चतुर्लक्षम् जपेन्मन्त्रम् अष्टद्रव्यैर्दशांशतः जुहूयाद्विधिमन्त्रै संस्कृते कव्यवाहने इक्षवसक्तवा मोचाफलानि चिपीडास्तिलाः मोदका नारिकेलानि लाजा द्रव्याष्टकं स्मृदं माधार शक्त्यादि परतत्त्वान्तमर्चयेत् षट्कोणान्तस्त्रिकोणं च बहिरष्टदलं लिखेद भूपुरं तत् बहिः कृत्वा गमेशं तत्र पूजयेद् तीव्राख्या ज्वालिनी नन्दा भोगदा कामरूपणी अग्रा तेजोवदी सत्या नवमी विघ्ननाशिनी विघ्ननाशिनी सर्वादिशक्तिकमलासनाय हृदयान्तिकः पीठमन्द्रो यमेदेन दद्यादासनमुत्तमं तत्राबाह्यगणाधीशमध्ये सम्पूज्य यत्नदः विकोणबाह्ये पूर्वादि च देष्वार्चयेत्क्रमाद श्रियं श्रियत्पदिं चैव गौरीं गौरीं पदीं तथा रदिं रतिपदिं पश्चान्महीपूर्वजपोत्रिणम् क्रमद्विल्वडा क्रमा क्रमद्विल्ववडाश्व प्रियगो नाम धोर्चयेत् रमा पद्मद्वयकरशङ्खचक्रधरोहरिः गौरीपाशाङ्कुशधराटङ्गशूलधरोहरः रदि पद्मा परा भूपोत्री शूकव्रीह्यग्रहस्था गदाधरः देवाग्रे पूजये लक्ष्मीसहितं तु विनायकं पूजयेत् षट्सु कोणेषु ह्यामो दाद्यान् प्रियायुधान् आमोदं सिद्धिसंयुक्तमग्रतः परिपूजयेद प्रमोदं चाग्निकोणे दुःसमृद्धिसहितं यजेद ईशकोणे यजेत् कीर्तिसंयुधं सुमुखं तथा वरुणे मदनावत्या संयुधं दुर्मुखं यजेद यजेन्नैऋत्यकोणे दुर्विघ्नं मदद्रवायुधम् द्राविण्या विघ्नकर्तारं वायुकोणे समर्चयेद् पाशाङ्कुशाभयकरास्तरुणार्कसमप्रभान् कपोलविगलदान गन्धलुब्धा शिलोभितान् षट्कोणो भयपार्श्वे दुशङ्कपद्मनिभौ क्रमाद सखितौ निजशक्तिभ्यां ध्यात्वा पूर्व वदर्चयेद् केशरेषु षडङ्गानि पात्रेष्वष्टौ धूमादरः इन्द्राद्यानपि वज्रादीन् पूजये धरणी गृहे एवमाराध्यविघ्नेशं साधयेत्स्वमनोरथान् चतुश्चत्वारिं शताढ्यं चतुश्शतमतन्त्रितः तर्पयेदम्बुभिशुद्धैर्गजास्यं दिनशुद्धीः पद्मैस्तु वश यद्भूपां तत्पत्नीश्चोत्पदैस्तद्धा कुमुदैर्मन्त्रिणोश्वद्ध समिद्भिर्वाढवाशुभैः उदुम्बरोद्धैर्नृपदीन्वैश्यान्प्लक्षसमुद्भवैः वडोद्भवै वडोद्भवैस्समिद्भिश्च वशये दन्दिमान् बुधः अद्य श्रियमाप्नोति स्वर्णाप्तिर्मधुना भवेद गोदुग्धेन सर्व लाभोद् दध्ना सर्वसमृद्धिमान् अन्नाप्तिरन्नहोमेन समिद्भिर्वेदसां जलम् सांसिलभदे हुत्वा कुसुम्भकुसुमै शुभैः अध सर्वेष्ठदं वक्ष्ये चतुरावृत्तितर्पणं मूलेनादौ चतुर्वारं प्रत्येकं च प्रत्यर् प्रत्येकञ्च प्रदर्पयेद पूर्वमन्त्राक्षरैर्मन्त्रैस्वाहान्तैश्च चतुश्चदुः मूलमन्त्रैश्च दुर्वारपूर्वकं सम्प्रतर्प्य च मिथुनादींस्तदपश्च पूर्ववत् सम्प्रतर्पयेत् देवेन सहितां शक्रिं शक्रिया च सहितं तूर्थम् एवं च षड्विंशतिथा मिथुना निभवन्ति हि स्वनामाद्यर्नबीजानि तानि सन्दर्पयेत्क्रमाद भवेत्सम्भूय स चतुश्चत्वारिंशदुशतं एवं सन्तप्य तत्पश्चात्पूर्ववत्सोपचारकैः सर्वाभीष्टं च सम्प्रार्थ्य प्रणाम्योद्वासयेत्सुधिः भाद्र कृष्णचतुर्ध्यादिप्रदि मासमदन्त्रिदः आरभ्यार्कोदयमन्त्री यावच्चन्द्रोदयो भवेद् तावन्नोपविशेद्भूमौ जितः वा विस्तरमानसः ततश्चन्द्रोदये मन्त्री पूजयेद्गणनायकम् पुष्पो पूर्वोक्तविधिना सम्यग्ना पुष्पोपहारकैः एकविंशतिसङ्ख्याकान् मोदकांश्च निवेदयेत् तदग्रे प्रजमेन प्रजमेन्मन्द्रमष्टोत्तरसहस्रकं तदकर्पूरकाश्मीररक्तपुष्पैः स चन्दनैः अर्घ्यं दद्या तु मूलान्दे णेरे गणपतिं तदः इदमर्घ्यं कल्पयामि हृदन्तोऽर्घ्यमनुर्मदः स्तुत्वा नत्वा विसृज्याध यजेश्चन्द्रमसं पुनः अर्घ्यं दद्यां चतुर्वारं पूजयित्वा गुरुं तदः निवेदितेषु विप्राय दद्यादार्थांश्च मोदपान् स्वयमर्थान् प्रभुं जीतब्रह्मचारी जितेन्द्रियः एवंव्रतं यकुरूदे कुरु सम्यक् संवल्सरावधी पुत्रान् पौत्रान् सुखं वित्तमारोग्यं लभते नरः सूर्योदया दशक्रेदस्तमारभ्यमन्द्रविद दा चन्द्रोदयां तं पूर्वोक्तविधिना व्रतमाचरेद एवं कृतेपि पूर्वोक्तं फलमाप्नोति निश्चितं गणिश्यप्रतिमां दन्दिदं देन कपिनापि वा गजभग्रेन निम्बेन सिदार्केणाथवा पुनः कृत्वा तस्यां समावाह्यप्राणस्थापनपूर्वकम् अभ्यर्थ्य विधिवन्मन्त्री राहुग्रस्ते निशाकरे स्पृष्ट्रा चैव निराहारस्तां शिखायां समुद्वहन् द्यूते विवादे समरे व्यवहारे जयं लभेद बीजम्बराहो बिन्दाढ्यौ मन्विद्वान्नौ कलौ तदः स्मृतिर्मां सेम्धो मन्वाग्राहर्नोश्चिष्टगणे वदेद बगत्सदीर्घपवनो महायक्षाय जम्बलिः माख्यादो न चेद्वर्णो किलेष्ठदः प्रणवो भुवनेशानी शानिस्वबीजां ते न वार्णकः अस्तीति जपि शाचीति लिख्ये चैवाग्रिं सुन्दरी न वार्णोऽयं समुद्दिष्टो भजतां सर्वसिद्धितः पाद्धैः सर्वेण मन्त्रेण पञ्चाङ्गानि प्रकल्पयेदे अन्यत् सर्वं समानं स्यात् आधाभि नारद अधाभिधास्ये विधिवद्वक्रतुण्डमनुत्तमं तोयं विधिर्वह्नियुक्तकर्णेन्द्वाढ्यो हरिस्तधा दा। सदीर्घो दारको वाय वर्मान्तोऽयं रसार्णकः भार्गवोस्यमुनिश्चन्दो नुष्टुदेवो गणाधिपः वक्रतुण्डाभिदो बीजं वं शाक्तिकवजं पुनः तारदृन्मध्यगैर्मन्द्रवर्णैश्चन्द्रविभूषितैः कृत्वा षडङ्गमन्द्रार्णान् भ्रूमध्ये जगले हृदि नामौ लिङ्गे पदे न्यासाखिलेन व्यापकं चरेत उद्यतर्कद्युतिं हस्ताैः पाशाङ्गुश वराभयान् दध तं गजवक्त्रं च रक्तभूषाम्बरं भजेद ध्यात्वैवं प्रजपेत्तर्कलक्षं द्रव्यैर्दशांशतः अष्टभिर्जुः यात्पीडे तीव्रादिसखितेऽर्चयेद् मूर्तिमूर्तेन सङ्कल्प्य तस्या मावाह्य पूजयेद् षट्कोणेषु षडङ्गानि पत्रेष्वष्ठौ दुश्चक्रयः यजे द्विद्यां विधात्रीं च भोगदां विप्रकादिनीं निधिप्रदीपां पापघ्नीं पुण्यां चचिप्रभां दलाग्रेषु वक्रदुण्डये गदंष्ट्र महोदरौ गजास्य लम्बोदरकौ विकटौ विघ्नराट् तदा धूम्रवर्णस्ततो बाह्ये लोके सान् हेदिसंयुधान् सार्धं यदखिलान् कामान्वक्रतुण्डप्रं साधः लब्ध्वा गुरुमुखान् मन्त्रं दीक्षा संस्कारपूर्वकं ब्रह्मचारी हविष्यासी सत्यवाच जितेन्द्रियः जभे तर्कसहस्रं तु षण्मासं होमसं युधम् दारिद्र्यं दुपराभूय जायते धनदोपमः चतुर्ध्यादि चतुर्भ्यन्तं जपेदयुतमादरात् अष्टोत्तरशतं नित्यं भूत्वा प्राग्वद्भलं लभेत् पक्षयोरुभयोर्मन्त्री चतुर्ध्यां जिहुयाच्छदम् अपूपैर्वल्सरे सस्य समृद्धे परमं पदम् अङ्गारकसदुभ्यां तु देवमिष्ट्वा विधानदः अविशा पायसान् नैवेद्यं परिकल्पयेद ततो गुरुं समभ्यर्थ्य भोजयेद्विधिवसुधिः निवेदितेन जुहूयात् सहरस्रं विधिवध्वसौ एवं संवत्सरं कृत्वा महदीं श्रियमाप्नुयाद अ धान्यत्साधनं वक्ष्ये लोकानां हितकाम्यया इष्ट्वा गणेशं पृदुखैः पायसा पूपमोदकैः नानाभैस्ततो मन्त्री हरिद्रामधसैन्धवं वचान्निष्कार्धभागं च तदर्थं वा मनुं जपेद विशोद्यचूर्णं प्रसृतौ गवां मूत्रे विनिक्षिपेद सहस्रकृत्वो मनुना मन्त्रयित्वा स्नादा मृदुदिने शुद्धां शुक्लाम्बरधरां शुभां देवस्य पुरतः स्थाप्य पाययेदौषधं सुधीः सर्वलक्षणसम्पन्नं वन्ध्याभिलभते सुदम् धान्यसम्प्रवक्ष्यामि रहस्यं परमद्भुतं गोचर्म मात्रां धरणीमुपलिप्य प्रयत्नधः विकीर्य धान्यप्रकरैस्तत्र संस्थापयेद्धडं शुद्धोदकेन सम्पूर्य कपिलाज्येन सम्पूर्णं शरावं नूतनं शुभं ष्ठाष्ठाक्षरमन्त्राभ्यां दीपमारोपयेत् शुभं दीपे देवं समावाह्य गन्धपुष्पादिभिर्यजेद् स्नादां कुमारीमथवा कुमारं पूजयेत् शुद्धीः दीपस्य पुरतः स्थाप्य ध्यात्वा देवं जपेन्मनुं प्रदीपे पृष्टदस्सम्पदि वा नष्टं चैवाप्यनागतं सकलं प्रवदे कुमारी वा कुमारकः षडक्षरो हृदन्तश्चेद् भवेद्दष्टाक्षरो मनोः अन्येऽपि मन्त्रादेवर्षे सन्ति तन्त्रे गणेशिदुः किं त्वत्र यन्नसाध्यं स्यात् त्रिषु लोकेषु साधकैः अष्टविंशरसार्णाभ्यां तन्नपश्येदभिक्वचिद् एतद्गणेशमन्त्राणां विधानं ते मयोदितं षडेभ्यः परशिष्येभ्यो वञ्चकेभ्योऽपि मा वद यं यो भजते देवं दे गणेशं सर्वसिद्धिदं प्राप्येह सकलन्धोनिन्दे मुक्तिप्रदं व्रजेत् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे गणेशमन्त्रविधाननिरूपणं नामाष्टषष्टितमोऽध्यायः ओम्